श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध अस चतुर्दशोऽध्यायः भक्तियोगीमहिमा तथा ध्यानविधिकवर्णन् बुद्धौ उवाच वदन्तकृष्णश्रेयांसि बहूनि ब्रह्मवादिनः तेषां विकल्पप्रधान्यमुताहो एकमुख्यता भवतोदामिन् भक्तियोगो नपेक्षितः निरस्य सर्वतः सङ्गं येन त्वय्या विषेन्मनः श्रीभगवानुवाच कालेन नष्टा प्रलये वाियं वेदसंज्ञिता मयादौ ब्रह्मणो प्रोक्ता धर्मो यस्यां मदात्मकः तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ततो भृगवदायोद्गृह्णन् सप्तब्रह्म महर्षयः तेभ्य पित्रेभ्यस्तत्पुत्रा देवदानो गुह्यकाः मनुष्या सिद्धगन्धर्वा सविद्या धनचारणाः किं देवा किं नरा नागारक्ष किं पुरुषादयः बह्वयस्तेषां प्रकृतियो रजसत्त्वतमोभुवः याभिर्भूतानि भिद्यन्ते भूतानां मतियस्तथां यथा प्रकृति-शर्वेशां प्रकृतिसर्वेषां चित्रावाच सृण्वन्ति एवं प्रकृतिवैचित्राद्भिद्यते मतियोनृणाम् पारम्पर्येण केषाञ्चेत्पाखण्डमतयोपरे मन्माया मोहितधियपुरुषापुरुषभ सेयो वदन्तनेकान्तं यथा कर्म यथा रुचि धर्ममेके यतश्चान्ये कामं सत्यं दमं समम् अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् केचि यज्ञतपोदानं वृतानि निर्मान्यमान् आद्यन्तवन्त एवैषां लोकाकर्म विनिर्मिताः दुःखोदकरन्दुःखोर्दर्कासमो निष्ठा सिद्धानन्दासचरार्पिताः संभ्य सम्भ्यनिरपेक्षस्य सर्वतः मयात्मना सुखं यत्तत्कुतस्याद्विषयात्मना अकिञ्चनस्य दान्तस्य शान्तस्य समचेतस मया सन्तुष्टमनस सर्वा सुखमया दिश न पारमेष्ठ्यं न महेन्द्रधिष्ठ्यं न सार्वभौमं न न योगसिद्धिर्पुनर्भवं वा मय्यर्पितात्मेक्षति मन्विनान्यत् न तथा मे प्रियतम आत्मयोनिर्न शङ्करः न च शङ्कर्षणो न श्रीनैर्वात्मा च यथा भवान् निरपेक्षं मुनिं शान्तं निर्वैणं समदर्शनम् अनुव्रजाम्यहं नित्यं पूजयेत्यङ्घ्रिरेणुभि चेतस महांतो निष्किञ्चनामय्यनुरक्तचेतसः शान्ता महान्तोखिलजीववशराः कामैर्नालब्धति योजुषन्ति यन्तन्नैरपेक्षं न विदुः सुखं मम बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः प्रायप्रगल्भया भक्त्या विषयेर्णाभिभूयते यथाग्नेशो समन् समृद्ध्वार्चिः करोत्येधांसि भस्मसात् तथा मद्विशया भक्तिरुद्धवैनांसि कृष्णश न साधयति मां योगो न साङ्ख्यं धर्म उद्धवं न स्वाध्यायस्तपस्यागो यथा भक्तिर्ममोर्जिताम् भक्त्याहमेकयाग्राह्य श्रद्धयात्मा प्रियसताम् भक्तिः पुनातिमन्यष्ठा शपाकानपि सम्भवात् धर्मसत्यदयोपेतो विद्यावातपुशान्वितां मद्भक्त्यापेतमात्मानं न शम्यं प्रपुनातिः कथं विनारो महर्षं द्रवता चेतसा विना विनानन्दाश्रुकलया शुद्धेदभक्त्या वाग्गदगदाद् द्रवते यस्य चित्तं रुदन्तभिक्ष्णं हसति क्वचिच्च विरज्य उद्गायते नित्यते च मद्भक्तियुतो भुवनं पुनाति यथाग्निनाशे ममलं दहाति ध्मातं पुनः स्वं भजते च रूपम् आत्मा कर्मानुशयं विधूय मद्भक्तियोगेन भजन्त्यतो माम् यथा यथात्मा परिमृद्यते सौ मत्पुण्यगाथाश्रवणाभिधाने तथा तथा पश्यति वस्तुसूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम्